अथैकत्रिंशः सर्गः अथ ताम् व्रजनीम् रामलक्ष्मणौ ऊषतुर्मुदितौ वीरौ प्रभृष्टेनान्तरात्मना प्रभातायाम् तु शर्वर्याम् कृतपौर्वाह्निकक्रियौ विश्वामित्रमृषींश्चान्यान् सहितावभिजग्मतुः अभिवाद्यमुनिः श्रेष्ठम् ज्वलन्तमिव कूचतुः परमोदारम् वाक्यम् मधुरभाषिणौ इमौ स्म मुनिशार्दूलकिम् करौ समुपागतौ आज्ञापयमुनिः श्रेष्ठशासनम् करवावकिम् एवमुक्ते तयोर्वाक्ये सर्व एव महर्षयः विश्वामित्रम् पुरस्कृत्य रामम् वचनमब्रुवन् मैथिलस्य नरश्रेष्ठजनकस्य भविष्यति यज्ञः परमधर्मिष्ठस्तत्र यास्यामहे वयम् त्वम् चैव नरशार्दूलसहास्माभिर्गमिष्यसि अद्भुतम् च धनोरत्नम् तत्र त्वम् द्रष्टुमर्हसि तद्धि पूर्वम् नरश्रेष्ठदत्तम् सदसि दैवतैः अप्रमेयबलम् घोरम् मखे परमभास्वरम् नास्य देवा कर्तुमारोपणम् शक्ता न कथञ्चन मानुषाः धनुषस्तस्य वीर्यम् हि जिज्ञा सन्तो महीक्षितः दशे कुरारोपयितुम् राजपुत्रा महाबलाः तद्धनुर्नरशार्दूलमैथिलस्य महात्मनः तत्र द्रक्ष्यसि काकुत्स्थयज्ञम् च परमाद्भुतम् तद्धि यज्ञफलम् तेन मैथिलेनोत्तमम् धनुः याचितं नरशार्दूलसुलाभम् सर्वदैवतैः आयागभूतं नृपतेस्तस्य वेश्मनिराघवा अर्चितम् विविधैर्गन्धैर्धूपैश्च गुरुगन्धिभिः एवमुक्त्वा मुनिवरः प्रस्थानमकरोत्तदा सर्षि सङ्घः स काकुत्स्थ आमन्त्र्यवलदेवताः उत्तरे जाह्नवीतीरे हिमवन्तम् शिलोच्चयम् इत्युक्त्वा मुनिशार्दूलः कौशिकः स तपोधनः उत्तरा दिशमुद्दिश्य प्रस्थातुमुपचक्रमे तम् व्रजन्तम् मुनिवरमन्वगादनुसारिणा शकटीशतमात्रम् तु प्रयाणे ब्रह्मवादिना मृगपक्षिगणाश्चैव सिद्धाश्रमनिवासिनः अनुजग्मुर्मत्मानम् विश्वामित्रम् तपोधनम् निवर्तयामा सततः सर्षसङ्घः सपक्षिणः ते गत्वा दूरमध्वानम् लम्बमाने दिवाकरे वासम् चक्रुर्मणिगणाः शोणाकूले समाहिताः रामोऽपि सह सौमित्रिर्मुनीस्तानभिपूज्य च अग्रतो निशसादाथ विश्वामित्रस्य धीमतः अथ रामो महातेजा विश्वामित्रम् तपोधनम् पप्रच्छ मुनिशार्दूलम् कौतूहलसमन्वितम् भगवन्कोऽन्वयम् देशः समृद्धवनशोभितः श्रोतुमिच्छामि भद्रम् ते वक्तुमर्हसि तत्त्वतः नोदि राम वाक्यन कथयामस सुव्रत मध्ये देश निखिल ऋषिमध्ये महात इशे श्रीमद्मा आदि काव्ये बाकश